मार्कण्डेयपुराणम् अध्यायं 104 एण्ड् फोर् सूर्यस्तवनवर्णनं मार्कण्डेय उवाच लिख्यमाने ततो भानौ विश्वकर्मा प्रजापतिः उद्भूतपुलकस्तोत्रमिदं चक्रे विवस्वतः विवस्वदे दानु ने महात्मने समजव सप्त सुजसे कमलकुलाव बोधिने पडल पडाव नमस्तपड़ल पड़ पाड़िनेवनातिशयपुण्यकर्मणे नईकम प्रदाने भास्वरानलमयूखायिने सर्वलोकहितकारिणे नमः अजाय लोकत्रयकारणाय भूतात्मने कोपदये वृषाय नमो महाकारुणिकोत्तमाय सूर्याय चक्षुप्रभवालयाय विवस्वदे ज्ञानमृतेन्तरात्मने जगत्प्रधिष्ठाय जगद्धितैषिणे स्वयंभुवे लोकसमस्तचक्षुषे सुरोत्तमायामिद तेजसे नमः क्षणमुदयाचलमौलिमणिः सुरगणमहिदहितो जगदः त्वमुमयूखसहस्रवपुर्जगदि तमां विभासि तमांसिनुदन् भवतिमिराशवपानमदाद्भवति विलोहितविग्रहदामिहिरविभासि यतः सुतरां त्रिभुवनपावनभानिकरैः रथमधिरुह्य समावयवम् चारुविकंपिदमुरुरुचिरं सततमखिन्नहयैर्भगवंश्चरसि जगद्धिदाय वितम् अमृतमयेन रसेन समं विबुध पितृनपि तर्पयसे अरिगणसूदन तेन तव प्रणदिमुपेत्य लिखामि शुकसमवर्णह्यप्रथितं तव पदपां सुपवित्रतमं नदजनवत्सल मां प्रणतं त्रिभुवनपावन पाहि रवे इति सहलजगत्प्रसूदिभूतं त्रिभुवनपावनधामहेदुमेकं रविमखिलजगत्प्रदीपभूतम् त्रिदशवरप्रणदोऽस्मि सर्वदा इति श्रीमार्कण्डेयपुराणे सूर्यस्तवनं नाम चतुरधिकशततमोऽध्यायः